श्रीमन महाभारतं श्रीमं पर्वणि बकवध पर्वणि भीम शततमो अध्यायः अध्याय कुुवाच नषादस्वया कार्यो भयादस्माचन का उपाय परद्रष्ट्र तस्मा मोक्षा रक्षसुत बाईका तपस्विनी न तवरोचये पत्न्यागमनम् तव रोचये मम पञ्चसुता ब्रह्मंस्तेषामेको गमिष्यति त्वदर्थम् बलिमादाय तस्य पापस्य रक्षसः ब्राह्मण नाहमेतत् करिष्यामि जीवितार्थी कथञ्चन ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणान् वियोजयन् न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते यद्ब्राह्मणार्थम् विसृजेदात्मानमपि चात्मजम् आत्मनस्तु मया श्रेयो बोद्धव्यमिति रोचते ब्रह्मवध्यात्मवध्या वा श्रेयानात्मवधो मम ब्रह्मवध्या परम् पापम् निष्कृतिर्नात्र विद्यते अबुद्धिपूर्वम् कृत्वापि परमात्मवधो मम न त्वहम् वधमाकाङ्क्षे स्वयमेवात्मनः शुभे परैः वधे पापं न विद्यते अभिसन्धिकृते तस्मिन् ब्राह्मणस्य वधे मया निष्कृतिम् न प्रपश्यामि दृशं सं च आगतस्य गृहम् त्यागस्तथैव शरणार्थिनः याचमानस्य च वधो नृशंसो गर्हितो बुधैः कुर्यान्न निन्दितम् कर्म न नृशंसम् कथञ्चन इति पूर्वे महात्मान आपद्धर्मविदो विदुः श्रेयांस्तु सहदारस्य विनाशोद्य मम स्वयम् ब्राह्मणस्य वधम् नाहमनुमंस्ये कदाचन कुन्त्युवाच ममाप्येषा मतिर्ब्रह्मन् विप्रा रक्ष्यायिति स्थिरा न शक्तो मम पुत्रविनाशने वीर्यवान् मन्त्रसिद्धश्च तेजस्वी च मम राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनं मोक्षयिष्यति चात्मानमिति मे